श्रीहरये नमः अत तृतीयोऽध्यायः मैत्रेय सदा विद्विशतोरेवं कालो वैध्र्यमाणयोः जमातु स्वसुरस्यापि सुमहानीचक्रमे यथा भिक्षिक्तो दक्षस्थो ब्रह्मणा परमेष्टिनां प्रजापतीनां सर्वेषाम् आधिपत्ये च बृहस्पतिशं नाम सभारे बे कृदूत्तमं तस्मिन् ब्रह्मर्षः सर्वे देवर्षि पितृदेवताः आसन् कृतस्वस्त्ययानास्तत्पत्न्यश्च सभर्तृकाः तदुपसृत्य नभसि केचराणां प्रजल्पधां सधी दाक्षायणि पितुर्यज्ञमहोत्सवं व्रजन्ती सर्वतो देभ्य उभदेववरस्त्रियः विमानयाना स प्रेष्ठा निष्ककण्ठीसुवाससः दृष्ट्वा स्वनिलयाभ्यासे लोलाक्षिर्मृष्टकुण्डलाः पतिं भूतपतिं देवम् औत्सुक्या सत्युवाच प्रजापतेस्ते स्वसूरस्य साम्प्रतं निर्याभितो यज्ञमहोत्सव किल वयं च तत्राभिसरामवाम ते यत्त्यर्तिधामि तस्मिन् भगिन्यो मम भर्तृभिः स्वकये कमिष्यन्ति सुहृद् दितृशवः अहं च तस्मिन् भवताभिकामये सखोपनीतं परिभर्हमर्हितुं तत्र स्वश्वर्मे तनो भर्तृसंमिता मातृश्वस्रुक्लिन्नधियं च मातरं द्रक्ष्ये चिरोत्कण्ठमनामगर्षिभे न्नीयमानं च मृढात्वरद्वजं त्वय्येत साश्चर्यम् अजात्ममायया भाति गुणत्रयात्मकं तथात्म्यकं योषिधत्तत्वविच्यते दीनातितृषे भव मे भवक्षिथिं त्वस्य प्रयान्तिरभवान्य योषितोऽपि अलङ्कृतका कवरुदसहायासां व्रजद्भिशितिकण्ठमण्डितं नभो विमाने कलहंस पाण्डुभि कथं सुतायापि ृह्येकौतुकं निसंयदेकसुरवर्यने गते अनाकुता अप्यभियन्ति सौहृदं भर्तुर्गुरो देहक्रुधश्च केतनं तन्मे प्रसीदेधम् अमर्त्यवाञ्छितं कर्तुं भवान् कारुणिको बदार्हति त्वयात्मनोर्धे हमधप्रत्यशूषा मानुगृहाण याचितः ऋषिरुवाच एवं गिरित्र प्रियाया विभाक्षितप्रत्यप्यधत्त प्रहसन् संस्मारितो मर्मभितः कुवाकिशोन् समक्षतः भगवानुवाच त्वयोदितं शोभनमेव शोभने अनाहुता अप्यबियन्ति भन्तुषु ते यत्यनुत्पादितदोषृष्टयो विद्या तपो वित्तवपूर्वयकुलै सधां गुणै षट्विरस्तमेतरैः स्वभृतो हतायां भृतमान दुर्दृशः सब्धा न पश्यन्ति हि भूयसा नैतादृशानां स्वजनव्यवेश गृहान् प्रदीयात् अनवस्थितात्मना येभ्या गतान् वक्रदियाभिक्षते आरोपितब्रूपिरमर्षणाक्षिभिः तथाभिर्न व्यतदे शिलीमुखे शेतेर्निधाङ्गो हृदयेन दूयथा स्वानां यथा वक्रतियां धुरुग्धिभिर्दिवानिशन्तप्यति मर्मता व्यक्तं त्वमुत्कृष्टगते प्रजापते प्रियात्मजानामसि शुभ्रुसम्मता अथापि मानं न पितु प्रपत्यसे माताश्रयात्कपरितप्यते यतः पापश्यमानेन हृधातुरेन्द्रियसमृद्धिभिपूरुषबुद्धिसाक्षिणाम् अकल्पयेषामधिरोढमञ्जसा पदं परं द्वेष्टि यता सुराहरिम् प्रद्युद्गमप्रश्रयणाभिवाधनम् विधीयते सा तु मिथस्सुमध्य मे प्राज्ञे परस्मै पुरुषाय चेतसा कुहाशयायैव न देहमानिने सत्त्वं विशुद्धं वसुदेवसब्दितं यतीयते तत्र पुमानपावृतः सत्त्वे च तस्मिन् भगवान् वासुदेवो यदोषजो मे नमसा विधीयते तत्ते निरीक्षो न पिताभिदेहकृत् दक्षो मम अद्वित्तदनुव्रताश्च यो विश्वश्रु यज्ञद्गतं अनागसं दुर्वचसा अगरोतिरहा यदीव्रजिष्यस्य यदी दिखामद्वेचो भद्रं भवत्या न ततो भविष्यति सम्भावितस्य स्वजनात् पराभवो यथा सद्यो मरणाय कल्पते इति श्रीमद्भगवते महापुराणे चतुर्थस्कन्ते उमारुद्रसंवादे तृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहराजिके जय